श्रीमद्भागवत् महापुराणं सप्तं स्कन्ध पञ्चमोऽध्यायः नारदुवाच गुरुणैवं प्रति प्रोक्तो भूय आ सुरसुतं न चेद्गुरुमुखीयं ते कुतो भद्रा सती मतिः प्रह्लाद वाच मतिर्न कृष्णे परत स्वतो वा मिथोऽभिपद्येत गृहव्रतानाम् अदान्तगोभिर्विशतां तमिश्रं पुनः पुनश्च वितचर्वणानां न ते विदुः स्वार्थगतिं हि विष्णुं दुराशयाये बहिरर्थमानिन अन्धा यथान्धैरुपनीयमानां वाचि सतत्यामृदां निबद्धा नैषां प्रतीतस्तावद्रुक्रमाङ्घ्रिं स्पृशत्यनर्थापगमो यदर्थः महीयसां पादरजोऽभिषेकं निष्किञ्चनानां न वृणीत यावत् इत्युक्तो परतं पुत्रं हृण्यकसिपूवृषाम् अन्धे कृतात्मा सुसङ्गान् निरसस्य महीतलेम् आहामरसरुपरुषाविष्टः कषायीभूतलोचनः वध्यता मा स्वयं वध्यो निसारयत नैरृताः अयं मे भ्रातृहायोयं हृत्वा स्वान् श्रृहृदो धमः नित्येभ्यः तुल्यः पादौ विष्णोर्वासाद्भुसौ किं नु करिष्यत्यसमञ्जसः सौहिदं दुश्चजं पित्रो हाद्य पञ्चहायनः परोऽप्यपत्यम्भकृद्यथौषधं स्वदेहजोऽप्यामवयं वस्तुतोहितः छिन्द्यात्तदङ्गं यदितात्मनोहितं शेषं सुखं जीविति यद्विवर्जनात् सर्वैरुपायैर्हन्तव्यसम्भोज सेनाशनैः श्रहृल्लिङ्गधरशत्रु मुनेर्दृष्टं दिवेन्द्रियं नैऋतास्ते समादिष्टा भर्त्रा वैशूलपाळयः तिङ्मद्रष्टकराला स्यां तां रश्म शुश्रोरुहाः ददन्तो भैरवाण्णालासिन्धिन्भिन्धिति वादिनः आसीनं चाहनं शूले प्रह्लादं सर्वमं मर्मसु परे ब्रह्मण्यनिर्देश्ये भगवत्यखिलात्मने युक्तात्मन्य फला आसन्नपुण्यस्यैव सत्क्रियाः प्रयासे प्रहते तस्मिन् दैत्रेन्द्रपरिशङ्कितः चकार तद्वथोपायान्निर्बन्धेन युधिष्ठिर दिग्जं जैर्दन्दशूकैश्च अविचारावपातनैर् मायापि सन्निरोधैश्च गर्दानैर्भोजनैः हिंवै अग्निसलिलैर्पर्वताक्रमणैरपि न शशाक यदाहन्तुम् अपापम् असुरः सुतं चिन्तां दीर्घतमां प्राप्त तत्कुरुतं नाभ्युपद्यत एष मे बहु साधुक्तो मधोपायाश्च निर्मिताः तैश्चन्द्रोहैरसन्दर्मै मुक्तास्वेनैव तेजसाम् वर्तमानो विदूरे वै बालोऽप्यजण्डधीरयं न विस्मरति मेनार्थं शुनः क्षेप इव प्रभो अप्रमेयानुभावोऽयम् अकुतश्चिद्भयोमरः नूनम् एतद्विरोधेन मृत्युर्मे भविता न वा इति तं चिन्तया किञ्चिन्लान श्रियम् अधोमुखम् षण्डामार्कावो शनसौ विविक्त इति होचतुः जितं त्वयैकेन जगत्त्रयम्भुवो विजृम्भणत्रस्तम् समस्तधिष्णयम् न तस्य चिन्त्यं तव नाथु चक्ष्महे न वैशिशूनां गुणदोषयोपदम् तु पासैर्वरुणस्य बद्ध्वा निधेहि भीतो न पलायते यथा बुद्धिश्च पुंसो वयसार्यसेवया यावद्गुरुर्भार्गव आगमिष्यते ततेते गुरुपुत्रोक्तम् अनुज्ञायेतम् अब्रवीत् धर्माशस्योपदेष्टव्या राज्ञां ये गृहमेथिनां धर्मम् अर्थं च कामं च चा नितरां चान्पुर्वशः प्रह्लादाय चतुराजन् प्रसृतावनृताय च यथा त्रिवर्गं गुरुभिरात्मने उपशिक्षितं नासाधु मेनेतक्शिक्षां द्वादां द्न्द्वारामोपवर्णिताम् यदाचार्यपरावृतो गृहमेधिय कर्मषु वयस्यैकबालकैस्तत्र सोमपहूत कृतक्षलैः असतांश्लक्ष्मया वाचा प्रत्याहूय महाबुध उवाच विद्वां तन्निष्ठां कृपया प्रहसन्निव ते तु तद्गौरवास्सर्वे त्यक्तक्रीडापरिच्छदाः बालान बाला न दूषितधियो द्वन्द्वारावेरिते हितै पर्युपासतराजेन्दतन्यस्तहृदि क्षणाः तानाह करुणो मैत्रो महाभागवतोऽसुरः श्री श्रीमद्भागवते महापुराणे पारंसां शयितायां सप्तम्यस्कन्दे प्रह्लादानुचरिते पञ्चमोऽध्यायः